एकसप्तत्यधिकशत तमोऽध्यायः गन्धर्व उवाच अथ तस्यामदृश्यायाम् नृपतिः काममोहितः पातनः शत्रुसङ्घानाम् पपात धरणीतले तस्मिन् निपतिते भूमावथ सा श्रोणी दर्शयामास तम् नृपम् अथा, अथा बभाषे उत्तिष्ठोत्तिष्ठ भद्रम् ते न त्वमर्हस्य निन्दम मोहम् नृपतिशार्दूल गन्तुमाविष्कृतक्षितौ एवमुक्तोऽथ नृपतिर्वाचा मधुर या तदा ददर्श विपुलश्रोणीम् तामेवाभिमुखे स्थिताम् अथ तामसितापाङ्गीमाबभाषे स त्वदर्थम् हि विशालाक्षि मामयम् निशितैश्वरैः कामः कमल गर्भाभे प्रतिविध्यन्न शाम्यति दष्टमेव मनाक्रन्दे भद्रे काममहाहिना सा त्वम् पीनायत श्रोणि मामाप्नुहि वरानने त्वदधीनाहिमे हि मे प्राणाः किन्नरोद्गीतभाषिणि चारु सर्वानवद्याङ्गि खलु जीवितुम् कामः कमल मामयम् तस्मात् कुरु विशालाक्षि मय्यनुक्रोशमङ्गने भक्तम् परित्यक्तुमर्हसि त्वम् हि माम् त्रातुमर्हसि भाविनि त्वद्दर्शन कृतस्नेहम् मे भृशम् न दृष्ट्वा पुनश्चान्याम् द्रष्टुम् कल्याणि रोचते प्रसीदवशगोहम् ते भक्तम् माम् भज वरारोहे मन्मथो भृशमङ्गने अन्तर्गतम् विशालाक्षि विध्यति मन्मथाग्नि समुद्भूतम् दाहम् कमललोचने प्रीतिसंयोगयुक्ताभिरद्भिः पुष्पायुधं स्वमे पुष्पायुधम् दुराधर्षम् प्रचण्ड शरकार्मुकम् त्वद्दर्शन समुद्भूतम् विध्यन्तम् दुःसहैश्चरै उपशामय कल्याणि आत्मदानेन भाविनि नाहमीषात्मनो राजम् कन्या पितृमती ह्यहम् मयि चेदस्ति ते प्रीतिर्या च स्वपितरम् मम यथा हि ते मया प्राणाः सङ्गृहीता नरेश्वर दर्शनादेव भूयस्त्वम् तथा प्राणान्ममाहर न चाहमीषा देहस्य तस्मान्नृपति सत्तम समीपम् नोपगच्छामि न स्वतन्त्रा हि योषितः का हि सर्वेषु लोकेषु विश्रुताभिजनम् नृपम् कन्यानाभिलषेन्नाथम् भर्तारम् भक्तवत्सलम् तस्मादेवं गतेकाले काले याच मम आदित्यम् प्रणिपातेन तपसा नियमेन च स चेत्कामयते दातुम् तव मामरिसूदन भविष्याम् यद्यते राजन् सततम् वशवर्तिनी अहम् हि तपती नाम सावित्थ्यवरजासुता अस्य लोक प्रदीपस्य इति श्रीमहाभारते आदिपर्वणि चैत्ररथ पर्वणि तपत्युपाख्याने